विश्वश्च रात पुरुष समाजो यक्तेन रूपेण सतत्वय हे रामकृष्ण स्वयभक्ति हे राम कृष्ण स्वयभक्ति कृपाकटाथं गुरुदेतं कृपाकटाथं गुरुदेवनेतं शिवेश्वं सिजसि तमेव स्वमादिदेवो विनिहंसि सर्वम् हे राम कृष्ण स्वयभक्तिणे हे राम कृष्ण स्वयभक्ति ने कृपा कटा गुरुदेव नित्यं कृपा कटा कुरुदेवनित्यम् माया समासे च करोषिलीलां भक्तान् समोधतुम् अनन्तमूर्ति हे रामकृष्ण त्वज भक्तिशिने हे रामकृष्ण त्वज भक्तिशिने श्रीपाकटाथम् गुरुदेवनित्रं श्रीपाकटाथम् गुरुदेवनेत्रं वेधेत्यरूपं नरवत्वया वै वेद्यापितो धर्म देहाति हे राम कृष्ण स्वयभक्ति हे राम कृष्ण स्वयभक्ति कृपा कटाचं गुरुदे कृपा कटाक्षम् गुरुदे सपोथते त्यागम् अदृष्टपूर्वं ज्येष्वानमश्यन्ति कथं न विज्ञा हे रामकृष्ण स्वयि भक्तिशे हे रामकृष्ण कटाथम् कुरुदेवनित्यम् कृपाकटाथम् कुरुदेवनित्यम् श्रोत्वाथ ते नाव भवन्ति भक्त्या दृष्ट्वा वयम् त्वाम् न तु भक्तियोक्ता हे राम कृष्ण स्वये भक्ति हे राम कृष्ण स्वय भक्ति कृपाकटाक्षं गुरुदेव नित्यं कृपाकटाक्षं गुरुदेव नित्यं सत्यम् विभं शान्तम् अनादिरूपं प्रसादये त्वाम् अजमन्तशून्यं हे रामकृष्टयि भक्तिशेले हे रामकृष्टयि भक्तिशेले पाकटाक्षम् गुरुदेवनित्यं कृपाकटाक्षम् गुरुदेवनित्यं जानामि तं न हि देशिकेन्द्रं किं ते स्वरूपं किमु भावजातम् हे राम कृष्ण स्वज भक्ते हेदे हे राम कृष्ण त्वज भक्ति शेदे कृपा कटाक्षं गुरुदेत्यं ीपाककाथं गुरुदे